नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे सर्वेषां स्वागतम् तर्हि करपत्रस्य पठनात् प्राक् अत्र पश्यामः अत्र एकः श्लोकः वर्तते तृणादपि सुनीचेन तरोरिव सहिष्णुना अमानिना मानदेन कीर्तनीयः सदाहरिः तृणाद् अपि सुनीचेन तरोः इव सहिष्णुना अमानिना मानदेन कीर्तनीयः सदाहरिः तर्हि प्रथमपङ्क्तौ तृणात् अपि सुनीचेन साधकस्य व्यवहारः कथं भवेत् साधकस्य व्यवहारः अस्मिन् लोके कथं भवेत् इति चेत् तस्य विनम्रता कथं भवेत् इति चेत् तृणात् अपि सः विनम्रः भवेत् तृणं यथा यथा कथमस्ति तृणं तत् भूमौ कुत्रचित् तृणमस्ति तर्हि तृण तृणं प्रति कोऽपि कस्यचित् आकर्षणम् अस्ति वा कस्यापि आकर्षणं नास्ति कोऽपि तु वृक्षं पश्यति कोऽपि तु सस्यं पश्यति तत्र तु फलानि सन्ति पुष्पाणि पुष्पाणि सन्ति इति पश्य तत्र पश्यन्ति तत्र कोऽपि पश्यति तर्हि इदानीं तृणस्य विषये तादृश आकर्षणं नास्ति तृणं तु यत्र कुत्रापि अस्ति तत्र तद् पृष्ट्वा अग्रे गच्छन्ति तत्र अवधानमेव नास्ति कस्यचित् अवधानम् एव नास्ति तथापि तृणं भूमौ अधोभागे अस्ति तथापि तत्र विनम्ररूपेण तत्रैव अस्ति वयं पादस्पर्शं कुर्मः चेदपि तृणं तत्रैव भूमौ अस्ति विन विनम्ररूपेण एवम् अस्माकं व्यवहारः कथं भवेत् इति चेत् अस्माकं व्यवहारः तृणादपि तृणात् अपि अस्माकं व्यवहारः विनम्रः भवेत् तृणं यथा तत्र विनम्रः अस्ति तस्मादपि अस्माकं विनम्रता अधिकं भवेत् इत्युक्ते अस्माकं लोके वयं पश्यामः अस्मिन् अस्मिन् जगति प्रजा सामान्यतया सामान्यतया जनानां व्यवहार व्यवहारः कथमस्ति कदाचित् धनं दृष्ट्वा व्यवहारः परिवर्त्यते कदाचित् ये इत्युक्ते पदवी या पदवी अस्ति तां दृष्ट्वा तत्र व्यवहारः परिवर्त्यते अथवा तत्र लोके तस्य स्थितिः कुत्र अस्ति सः धनी अस्ति वा अथवा सः अधनी अस्ति वा इति तत्सर्वं दृष्ट्वा एव व्यवहारः भवति इत्युक्ते यदि कोऽपि आयाति अस्माकं गृहे तर्हि वयं पश्यामः सा अस्ति इति पश्यामः यदि सः भिक्षुकः अस्ति चेत् तद् तदानीं वयं किं कुर्मः तदानीं वयं वदामः अग्रे गच्छतु मम मम पार्श्वे किमपि नास्ति अग्रे गच्छतु इति वयं वदामः किमर्थम् एवं वयं व्यवहारं कुर्मः यतोहि तस्य पार्श्वे किमपि नास्ति सः बहु अधनी अस्ति धनं नास्ति स इति कृत्वा वयम् एवं व्यवहारं कुर्मः एवम् अन्य आयाति इदानीं यस्य पार्श्वे बहु धनम् अस्ति इदानीं तत्र तत्र कोऽपि कस्यचित् कम्पनी अस्ति खलु तस्य कम्पनी सि इ ओ आयाति इति चिन्तयन्तु तदानीं वयं किं कुर्मः ओ बहु धनी अस्ति इति कृत्वा तस्य आदररूपेण गृहस्य अन्ते तस्य स्वीकृत्य तस्य कृते जलपानं सर्वं दत्वा एवं रीत्या वयं व्यवहारं कुर्मः किं किमर्थम् एवं व्यवहारं कुर्मः अस्माकं व्यवहारः तु समानरीत्या भवेत् यः भवतु या धनी वा भवतु अधनी वा भवतु सर्वे तु परमपुरुषस्य सन्तानः सन्ति तर्हि किमर्थम् अस्माकं व्यवहारः भिन्नरूपेण अस्ति अस्माकं व्यवहारः सर्वदा समानरूपेण भवेत् अस्माकं किमर्थम् एवं व्यवहारः अस्ति इति चेत् अस्माकम् अहङ्कारः अस्ति अहङ्कारः अस्ति इत्युक्ते या धनी अस्ति अस्माकं गृहे आयाति चेत् अस्माकम् अहङ्कारः वर्धते यः कोऽपि अधनी अस्ति चेत् तस्य कृते अस्माकं प्रीतिः नास्ति अतः अत्र अस्मिन् श्लोके किम् उक्तम् इति चेत् तृणादपि सुनि सुनीचेन सुनी इत्युक्ते अस्माकं व्यवहारः विनम्रः भवेत् सर्वेषां कृते विनम्रः भवेत् इत्युक्ते कस्यचित् कृते भिन्नरीत्या व्यवहारः अन्यस्य कृते भिन्नरीत्या व्यवहारः अपि च जनाः किं कुर्वन्ति इति चेत् जातिरूपेणापि व्यवहारः अस्माकं व्यवहारः परिवर्त्यते कदाचित् कोऽपि तथाकथितः ब्राह्मणः आयाति चेत् तदानीं वयं वदामः ओ आगच्छतु आगच्छतु आगच्छतु आगच्छतु इति गृहस्य अन्ते स्वीकृत्य तां तत्र सत्कारं कुर्मः परन्तु अन्यः कोऽपि कोऽपि तत्र शूद्रः आया तथा कथितः शूद्रः आयाति चेत् तदानीम् अस्माकं व्यवहारः भिन्नः भवति जातिरूपेण अपि त व्यवहारः भिन्नरूपे किमर्थम् एवं यदि तत्र शूद्रः आयाति चेत् तदानीं वयम् अस्माकं मुखं भिन्नरीत्या कुर्मः मुखे तत्र प्रसादः नास्ति मुखे तत्र प्रसन्नता नास्ति वयं वदामः ओ अस्तु आगच्छतु एवमेव वदामः परन्तु अन्य तथा कथितः ब्राह्मणः आसीत् वदामः आगच्छतु आगच्छतु आगच्छतु आगच्छतु इति इत्युक्ते अस्माकं मुखे प्रसन्नता अस्ति एवं किमर्थम् अस्माकं व्यवहारः भिन्नभिन्नः भिन्नभिन्नरूपेण व्यवहारः भवति इति तथा तथा व्यवहारः न स्यात् अस्माकं व्यवहारः सर्वेषां कृते समानरीत्या भवेत् अस्माकं व्यवहारः व्यवहारे विनम्रता भवेत् तृणादपि अस्माकं व्यवहारः व्यवहारे विनम्रता भवेत् तदर्थमेव अत्र तृणादपि सुनीचेन इत्युक्ते तृणादपि सम्यक्तया नीचरूपेण अस्माकं व्यवहारः भवेत् तरोः इव सहिष्णुना तरोः इव तरुः इत्युक्ते सस्यं सस्यं तरुः तत्र तर तरवः कथं व्यवहरन्ति तत्र तत्र वृक्षाः ये सन्ति ते कथं व्यवहरन्ति तत्र वृक्षेषु यदि तत्र वृक्षः अस्ति चेत् तत्र तस्य अधः वयं तिष्ठामः यदा बहु शीतः अस्ति अथवा बहु तत्र वृष्टिः अस्ति अथवा बहु आतपः अस्ति तदानीं वयं कुर्मः तस्य अधः वयं तिष्ठामः खलु तर्हि तत्र वृक्षः अस्माकं कृते तत्र आश्रयं ददाति कदाचित् वृक्षः बहुषु वृक्षेषु फलानि सन्ति पुष्पाणि पुष्पाणि सन्ति अपि च तत्र वृक्षाः आक्सिजन् अपि वृक्षः ददति इति एवं रूपेण वृक्षाः बहु किमपि अस्माकं कृते वृक्षः ददति तर्हि तर्हि तत्र वृक्षाः अस्मा अस्मात् किं वृक्षः अपेक्षते वृक्षाः अपेक्षन्ते इति चेत् तत्र किमपि नास्ति तत्र तत्र जीवनार्थं केवलं जलमेव अपे अपेक्षन्ते वृक्षाः तत्र अन्यत् किमपि वृक्षस्य कृते आवश्यकं नास्ति जलमावश्यकम् अपि च वातावरणम् आवश्यकम् अपि च आतपः आवश्यकं सूर्यस्य किरणाः आवश्यकाः अन्यत् किमपि न स्वीकुर्वन्ति तर्हि तदापि वयं तु अन्यत् किमपि न दद्मः इत्युक्ते वृक्षस्य कृते यः यः जलं ददाति तस्य कृते एव वृक्षः फलं ददाति वा न खलु वृक्षः इदानीम् अहं सस्यस्य कृते जलं ददामि तर्हि मम कृते एव फलं ददाति वा पुष्पं ददाति वा यः कोऽपि तत्र गत्वा पुष्पं स्वीकर्तुं शक्नोति यः कोऽपि गत्वा फलं स्वीकर्तुं शक्नोति इत्युक्ते तस्य व्यवहारे भिन्नता नास्ति खलु तस्य व्यवहारः समानः खलु यः कोऽपि भवतु यः कोऽपि आगत्य तत्र आम्रफलं स्वीकरोति चेत् वृक्षः न वदति ओ भवान् तु तथा कथितः हा ब्राह्मणः अस्ति तथा कथितः हा शूद्रः अस्ति भवान् तु नीचः अस्ति अधनी अस्ति अतः मम पुष्पं मासी स्वीकरोतु मम फलं मा स्वीकरोतु इति एवं न व्यवहरति इत्युक्ते तस्य व्यवहारे तस्य व्यवहारे सहिष्णुता अस्ति इत इत्युक्ते यः कोऽपि भवतु यः कोऽपि इत्युक्ते क कोऽपि आगच्छति तत्र आगत्य वृक्षस्य कर्तनं करोति तस्य कृते अपि तस्य व्यवहारः समानः एव कोऽपि आगत्य कर्तनं कृत्वा वृक्षस्य तत्र काष्ठं यदस्ति तत् स्वीकृत्य गच्छति तदानीमपि वृक्षस्य व्यवहारः समानः कोऽपि फलं स्वीकरोति तदानीमपि व्यवहारः समानः इति कृत्वा तत्र यः ददाति तस्य कृते एव अहं ददामि इति नास्ति खलु यः कोऽपि ददाति वा न ददाति वा वृक्षः तु तस्य तस्य फलम् अथवा पुष्पं तु ददाति एवं कथं भवेत् इति चेत् व्यवहारे समत्वं भवेत् सहिष्णुता भवेत् सर्वेषां कृते सहिष्णुता भवेत् इत्युक्ते यः कोऽपि भवतु तस्य कृते अस्माकं व्यवहारः समानः समानसमानः भवेत् अमानिना मानदेन इत्युक्ते यस्य मानं नास्ति इत्युक्ते तथाकथितः यः शूद्रः अस्ति अथवा यः नीचः अस्ति पार्श्वे धनं नास्ति तस्य कृते तं प्रति अपि अस्मा अस्माभिः समानरीत्या व्यवहर्तव्यं तं प्रति अपि अस्माभिः आदरः दातव्यः तं प्रति अपि अस्माभिः मानः मानः दातव्यः इत्युक्ते तस्यापि तस्यापि रेस्पेक्ट् वर्तते तस्यापि रेस्पेक्ट् वर्तते इत्युक्ते आदरः तं प्रति अपि अस्माभिः दातव्यम् इति अस्माकं व्यवहारः तत्र तृणादपि अस्माकं व्यवहारः नीचरूपेण भवेत् विनम्ररूपेण भवेत् अपि च तरोः इव सहिष्णुता भवेत् तरोः इव सहिष्णुता भवेत् यः आगच्छति तस्य तं प्रति व्यवहारः समानः भवेत् अहङ्कारः अस्माकम् अहङ्कारः विनम्रता यत्र अस्ति तत्र अहङ्कारः नास्ति खलु विनम्रता अस्ति चेदेव अग्रगतिः भवति यदा अहङ्कारः वर्धते इदानीं वयं किमपि पठामः पठनेन यदा ज्ञानं भवति ज्ञानेन अपि कदाचित अहङ्कारः भवति इति इति कृत्वा कदाचिदपि अहङ्कारः न स्यात् तत्र विनम्रता यत्र अस्ति तर्हि तदानीम् अहङ्कारः न भवति यः साधकः सः किं चिन्तयति सः चिन्तयति अहं तु परमपुरुषस्य यन्त्रः अस्मि तस्य कृते एव अहं सर्वं करोमि तस्य कृते एव अहं सर्वं करोमि मम कृते किमपि नास्ति एवं रीत्या यः व्यवहरति तस्य तु विनम्रता अस्ति तस्य तु अग्रगतिः अवश्यं भवति तस्य तु अहङ्कारः नास्ति इत्युक्ते अस्माकं अत्र अन्ततो गत्वा अस्माकं लक्ष्यं किम् अन्ततो गत्वा अस्माकं लक्ष्यम् अस्ति यत् अस्माकम् अहङ्कारः अह अस्माकम् अहम्भावः न स्यात् अहं भावः अहम्भावस्य न्यूनता भवेत् इत्येव अस्माकं लक्ष्यं खलु येन जीवात्मा परमात्मनोः ऐक्यं भवितुमर्हति इति इति कृत्वा अस्माकं व्यवहारे इत्युक्ते अद्य अद्य अहं परिशील परिशीलनं करोमि मम व्यवहारः कथम् मम व्यवहारः मम व्यवहारे विनम्रता अस्ति वा मम व्यवहारे सहिष्णुता अस्ति वा अहं यस्य मानं नास्ति तं प्रति अपि अहं मानं ददामि वा इति एवं रीत्या वयं परिशीलनं कुर्मः तदर्थमेव मया गतवर्गे एका कथा अपि एका कथाम् उक्तवती तत् पुनः एकवारं श्रावयामि तर्हि तत्र एकं श्लोकमपि मया उक्तम् एकं ज्ञानं नित्यं आदि अन्तशून्यं न अन्यत् किञ्चित् वर्तते वस्तु सत्यम् इति प्रथमभागः अस्ति एकं ज्ञानं नित्यम् आदि अन्तशून्यं न अन्यत् किञ्चित् वर्तते वस्तु सत्यम् इति शिवसंहिता इत्यस्मात् अयं श्लोकः श्लोकः तर्हि इतोपि अग्रे अस्ति तयो तयोः भेदः अस्मिन् इन्द्रिय उपादीना वै ज्ञानस्य अयं भासते न अन्यतैव इति अस्ति केवलं प्रथम प्रथमपङ्क्तिद्वयं स्वीकृत्य वयं पश्यामः तर्हि अत्र तदर्थम् इदानीं मया यं श्लोकं यः श्लोकः मया उक्तः तृणादपि सुनीचीन इति तत्र तत्र अन्ततो अत्र सारांशः कः इति चेत् अस्माकं व्यवहारे विनम्रता भवेत् अहङ्कारः न स्यात् तर्हि अहङ्कारः अस्ति अहङ्कारः किमर्थम् अस्माकम् अहङ्कारः अस्ति अहङ्कारः ज्ञानमस्ति इति कृत्वा अहङ्कारः कदाचित् भवति अथवा धनम् इति कृत्वा अहङ्कारः भवति अथवा पदवी अस्ति इति कृत्वा अहङ्कारः भवति शक्तिः अस्ति इति कृत्वा अहङ्कारः भवति अथवा यत् यत्किमपि भवतु नाम तदाधारेण अस्माकम् अहङ्कारः भवति परन्तु वयं किं चिन्तयामः यत् एतद्धनं मम अस्ति एतद् एतद्धनं मम अस्ति अथवा एषा पदवी मम अस्ति इति वयं भावयामः भावयामः स्म इति कृत्वा अस्माकम् अहङ्कारः अस्ति परन्तु एतत् सर्वम् अस्माकम् अस्ति वा एतद्धनम् अस्माकम् अस्ति वा अथवा एषा पदवी अस्माकम् अस्ति वा अथवा अत्र श लोके कुत्रचित् युनो पोस्ट् पोस्टिङ्ग् अस्ति खलु इत्युक्ते मिनिस्टर् रूपेण अथवा पोलिटिकल् पवर् अथवा यत्किमपि भवतु तत् सर्वम् अस्माकम् अस्ति वा अत्र तत् तत् केन तत्तु अस्माकं तु नास्ति तत् परमपुरुषेण इष्टं यद् अस्माकं भवतु इति तेन इष्टम् इति कृत्वा अस्माकम् अभवत् खलु तदर्थम् एव एका एका कथा वर्तते अत्र अत्र देवता असुराः देवताः असुराः मानवाः एकत्र तिष्ठन्ति तदानीं कदाचित् तत्र अकस्मात् अकस्मात् एका ज्योतिः तत्र एका ज्योतिः ज्योतिस्समुद्रः ज्योतिसमुद्रः तत्र आयाति तस्य आदिः अपि नास्ति अन्तः अपि नास्ति मध्यभागः अपि नास्ति ज्योतिस्वरूपं तत्र आयाति तस्य आदिः नास्ति अन्तः नास्ति तत्र अस्ति तर्हि एते सर्वे e तत्र तत्र एव तिष्ठन्ति तेषाम् इदानीं संशयः जातः एषः एषः कः अस्ति अस्माकं पुरतः इति तेषां संशयः जायते परन्तु तेषां भयं तेषां भयमपि अस्ति ओ गत्वा पृच्छामः वा न वा इति भयमपि अस्ति एषा ज्योतिः दिव्यरूपा दिव्यरूपा ज्योतिः अतः तत्र तस्य प्रकाशः बहु तीव्रः अस्ति प्रकाशः तदा तदन तदानीं दान, किं किं भवति इति चेत् तत्र देवस् देवतासु कश्चन अत्र देवतासु वायुदेवता वा भवतु अग्निदेवता वा भवतु वरुणदेवता वा भवतु एतेषु ते चिन्तयन्ति अस्मासु एकः एकः तत्र गत्वा वयं पृच्छामः एषा एषा का अस्ति एषा ज्योतिः का अस्ति इति वयं पृच्छामः इति ते चिन्तयन्ति तदानीं तत्र प्रथमतया वायुदेवता गच्छति तस्य बहु अहङ्कारः आसीत् वायुदेव देवता चिन्तयति ओ मम मम इव अन्य कोऽपि नास्ति अहं यत्किमपि मम पुरतः अस्ति तस्य तद् तद् अहं तस्य वहनं कर्तुम् अहं शक्नोमि इति तस्य मम अधिकं फलमस्ति इति तस्य गर्वः आसीत् तर्हि सः गत्वा पृच्छति पर तत्र ज्योतिस्वरूपं पृच्छति भवान् कः इति पृच्छति तदानीं ज्योतिस्वरूपं तं वायुं प्रति पृच्छति भवान् कः वदतु इति भवान् किं करोति इति वदतु इति पृच्छति तदानीं तत्र वायुदेवता वदति अहं वायु वायुदेवता वायु अस्मि मम कार्यं किम् अस्ति इति चेत् यत्किमपि मम पुरतः अस्ति तद् अहं तस्य वहनं कर्तुम् अहं शक्नोमि इति सः वदति तदानीं तत्र आ, आ, तत्र परमपुरुषः ज्योतिस्वरूपः ज्योतिस्वरूपः वदति अस्तु अत्र एक एकं तृणं वर्तते तस्य वाहनं करोतु इति वदति तदानीं वायुदेवता वद वायुदेवता फु फु फु इति करोति तदानीं किं भवति इति चेत् तत्र तृणं तत्रैव अस्ति कुत्रापि न गतं तत्र वायुदेवता बहु लज्जितः इदानीं किं कर्तुं शक्नोति बहु लज्जितः तस्य शिरः अधोभागे गच्छति तदानीं तत्र परमपुरुषः ज्योतिस्वरूपः पृच्छति ओ भ भवान् तु उक्तवान् भवान् यत्किमपि अस्ति तस्य वाहनं कर्तुं शक्नोति इति परन्तु भवान् किमपि न कृतवान् इति तर्हि वायुदेवता लज्जितः अस्ति सः पुनः गच्छति तदानीं पुनः अग्रे इदानीं वरुणदेवता आगच्छति तर्हि विराट् पुरुषं दृष्ट्वा सः पृच्छति भवान् कः इति तदानीं तत्र तत्र ज्योतिस्वरूपं यदस् ज्योतिस्वरूपः यदस्ति तत्र ज्योतिस्वरूपः परमपुरुषः तस्य आदि अन्तं नास्ति आदि अन्तशून्यम् अस्ति तत्तु ज्ञान ज्ञानस्वरूपं चित्स्वरूपम् अस्ति तादृशपुरुषः वायुं पृच्छति भवान् कः अस्ति भवान् किं करोति किं कार्यं करोति भवान् इति पृच्छति तदानीं वरुणदेवता वदति अहं यत्किमपि अस्ति तत्र तस्य किं किं वदामः तस्य Uh, आद्रीकरणम् आर्द्रीकरणम् अहं करोमि यत्किमपि मम पुरतः अस्ति तस्य आर्द्रीकरणम् अहं करोमि इति वरुणदेवता वदति तर्हि तर्हि पुनः परमपुरुषः तत्र पुरतः एकं तृणखण्डं स्थापयति तदानीं वदति इदानीं एतं खण्डं भवान् आर्द्रीकरोतु इति तदानीं वायुदेव वरुणदेवता तत्र आर्द्र आर्द्रीकर्तुम् आर्द्रिकर् कर्तुं प्रयत्नं करोति परन्तु किमपि न जायते तदानीं तत्र वरुणदेवता लज्जितः भवति तदानीं परमपुरुषः पृच्छति ओ भवान् तु उक्तवान् मम कार्यम् इति परन्तु भवान् किमपि न कृतवान् तर्हि इदानीं वरुणदेवता लज्जितः तर्हि लज्जिता अस्ति तर्हि वरुणदेवता गच्छति पुनः गच्छति तर्हि इदानीं तृतीयः जनः तृतीयः तृतीयः जनः आयाति तृतीयः अस्ति वस्तुतः तृतीया देवता आयाति अग्निदेवता तर्हि पुनः पुनः परमपुरुषः पृच्छति भवान् कः इति तदानीम् अग्निदेवता वदति अहम् अग्निदेवता अस्मि मम कार्यमस्ति यत्किमपि अस्ति तस्य दहनम् अहं करोमि इति एवं पुनः तत्र तृणखण्डं परमपुरुषः स्थापयति परन्तु अग्निदेवता तं तृणखण्डं दब्धुं न शक्नोति तर्हि पुनः अग्निदेवता लज्जिता लज्जिता भवति तर्हि पुनः ततः ततः निर्गच्छति इदानीं देवताः देवताः चिन्तयन्ति ओ एवम् एवं जातं किं कुर्मः इति तदानीं ते चिन्तयन्ति अस्तु अस्मासु अस्मासु एकः अस्ति यः बहु बुद्धिमान् न केवलं बुद्धिमान् अस्ति परन्तु व्यवहारं कथं व्यवहारः कथं कर्तव्यः इति अपि सः जानाति अपि कार्यं कथं साधनीयम् इत्यपि जानाति तत्र सः कार्यं कार्यं कथं साधनीयमिति सः जानाति इति तादृश तादृशं वयं प्रेषयामः इति चिन् इति चिन्तयित्वा तदानीम् एकः एका देवता अस्ति तां तत्र प्रेषयन्ति तदानीम् इदानीं परमपुरुषं प्रति सा, सा देवता गच्छति तर्हि पुनः परमपुरुषः पृच्छति भवान् कः अस्ति इति तदानीं देवता वदति अहं कः अस्मि इति ज्ञातुमेव अहम् अहं कः अस्मि इति ज्ञातुमेव अहम् आगतवान् इति इति वदति तदानीं तत्र तदानीं तत्र परमपुरुषः पृच्छति भवान् किं कार्यं करोति इति पृच्छति तदानीं सः देवता वदति भवान् यत्किमपि कार्यं ददाति तदेव तदेव अहं करोमि तदेव कर्तुम् अहं प्रयत्नं करोमि इति सः वदति इदानीं परमपुरुषः सन्तुष्टः सः वदति तर्हि सः सा देवता पृच्छति भवान् कः इति तदानीं तत्र परमपुरुषः वदति अहम् अहम् अहं परमपुरुषः अस्मि अहं अहं सर्वत्र अस्मि अहं अहं सर्वत्र अस्मि अन्तः अपि अस्मि बहिः अपि अस्मि भवतः अन्तः अपि अस्मि भवतः बहिः अपि अस्मि मम उपस्थितिः अस्ति इति कृत्वा एव भवान् सर्वं कर्तुं शक् शक्नोति भवान् किमपि कर्तुं न शक्नोति अहमस्मि भवान् सर्वं कार्यं करोति सर्वस्य अनुभवं करोति भवान् तु अत्र भवान् तु अत्र एकः बिन्दुः अस्ति स विशाल विशालसमुद्रस्य एकः बिन्दुः एव भवान् अस्ति इति परमपुरुषः वदति परमपुरुषः तत्र ज्ञानस्वरूपं तत्र एकं ज्ञानं परमपुरुषः एकं ज्ञानम् एकं ज्ञानं किम् ज्ञानं परमपुरुषः वदति द द इति एकं ज्ञानं खलु द इति वदति तर्हि परमपुरुषः वदति द इति उक्त्वा सा देवता या अस्ति तां प्रति वदति द इति स्वीकृत्य द इति ज्ञानं स्वीकृत्य भवान् तत्र गत्वा सर्वेषां कृते वदतु द इति ज्ञानम् इति तदानीम् अयं पुरुषः अयं देवताया इयं देव देवता या या अस्ति सा एव इन्द्रदेवता यतोहि सः न केवलं बुद्धिमान् सः पुरुषः स वसुतः सा देवता न केवलं बुद्धिमती अस्ति परन्तु तस्यां देवतायां तत्र कार्यं कर्तुं सामर्थ्यमपि वर्तते इति कृत्वा सा देवता एव नेता नेत्री अभवत् सर्वेषां देवतानां नेत्री अभवत् तर्हि इदानीं इदानीं तर्हि तत्र इन्द्रदेवता सह इन्द्रदेवता सः किं करोति इति चेत् इन्द्रदेवता अन्यान् प्रति वदति अत्र द इति तदानीम् इदानीं देवताः सन्ति मानवाः सन्ति असुराः सन्ति तर्हि द इति एकं ज्ञानम् तस्य एव तस्य तस्य ज्ञानस्य एव अर्थावगमनं भिन्नभिन्नरीत्या भवति तर्हि देवताः द इति ज्ञानस्य अर्थं कथं चिन्तयन्ति इति चेत् ते चेत् ते चिन्तयन्ति द इत्युक्ते तत्र दमनं कुरु दमनं कुरु दमनं कुरु इत्युक्ते तत्र स्वस्य स्वस्य याः वृत्तयः सन्ति प्रोपन्सिटिस् याः वृत्तयः सन्ति तेषां नियन्त्रणं कण्ट्रोलिङ्ग् आल् युर् इन्द्रियास् कण्ट्रोलिङ्ग् युर् इन्द्रियास् तत्र वृत्तीनां नियन्त्रणं द इत्यस्य अर्थः दमनं कुरु तर्हि मानवाः पुनः आगच्छन्ति ते कथं चिन्तयन्ति ते चिन्तयन्ति द इत्युक्ते दयां कुरु इति मानवाः चिन्तयन्ति दयां कुरु इत्युक्ते यदा वयं दयां कुर्मः तदानीम् अस्माकं हृदि अपि तत्र मधुरभावः भवति अस्माकं हृदि मधुरभावः भवति इति कृत्वा ए द इत्युक्ते इति चिन्तयन्ति पुनः असुराः आगच्छन्ति असुराः वदन्ति न न न द दमनं नास्ति द इत्युक्ते नास्ति द वस्तुतः दानम् इति अस्ति दानं कुरु इति ते चिन्तयन्ति अतः एव असुराः दानवाः इति वयं वदामः दानवाः यतोहि दानं ते दानं कुर्वन्ति देवतासु मानव मानवेषु दानवाः बहु स्थूलाः स्थूलभूताः किमर्थमिति चेत् दानकरणार्थं तत्र किमपि लौकिकवस्तु अपेक्षितं वर्तते लौकिक लौकिकवस्तूनि सर्वाणि अपि बहु स्थूलभूतानि स्थूलभूतानि सन्ति इति कृत्वा दानवाः अपि स्थूलभूताः इति अस्ति तर्हि अत्र अस्यां कथायां तत्र किम् अवगम्यते इति चेत् तत्र यत्किमपि वयं कुर्मः अस्माकं शक्तिः इति यद् वयं चिन्तयामः वस्तुतः अस्माकं शक्तिः नास्ति परम परमपुरुषेण दीयते चेत् सा शक्तिः अस्ति न दीयते चेत् सा शक्तिः तु नास्ति एव यथा तत्र अग्निदेवता वा भवतु या कोपि देवता भवतु तत्र तु तासां तु शक्तिः शक्तिः वस्तुतः नास्ति एव परमपुरुषेण दीयते चेत् शक्तिः अस्ति यदि ते परमपुरुषेण इष्यते तेषां तासाम शक्तिः ता मा भवतु इति परमपुरुषेण इष्यते चेत् तासां तु शक्तिः नास्ति अतः यत्किमपि अस्माकम् अस्ति तत्तु अस्माकं नास्ति तत्तु परमपुरुषेण दीयते यदि तेन इष्यते मम मम भा ब मम मा भवतु भा, इति तदानीं मम न भवति इति कृत्वा अत्र या या याः देवताः सन्ति वस्तुतः तेषां तासां तु शक्तिः वस्तुतः नास्ति वस्तुतः तु तासां शक्तिः तु परमपुरुषेण परमपुरुषेण एव दत्ता अस्ति ता ता शक्तिः इति इति कृत्वा अस्माकं व्यवहारः कथं भवेत् इति चेत् व्यवहारे अहङ्कारः अहङ्कारः अहङ्कारः न भवेत् तत्र श्लोकः कः अस्ति इति चेत् एकं ज्ञानं नित्यम् आदि अन्तशून्यं तर्हि परमपुरुषः यः वर्तते सः एका वर्तते एका सत्ता वर्तते सः एकः एव इत्युक्ते परमपुरुषः एकः एव अस्ति इत्युक्ते तत्र भिन्नभिन्नदेवताः सन्ति इति प इति ताः सर्वाः अपि परमपुरुष परमपुरुषः एव अस्ति इति नास्ति परमपुरुषः तु एकः एव अस्ति तस्य एकमेव ज्ञानं तस्य एकम् एव ज्ञानं परमपुरुषः नित्यः अस्ति आदि अन्तशून्यः आदि अन्तशून्यः तस्य आदिः अपि नास्ति अन्तः अपि नास्ति अतः एव अनादिः अनन्तः इति वदामः अनन्तरं न अन्यत् किञ्चित् वर्तते वस्तु सत्यम् अस्मिन् जगति अन्यत् किञ्चित् वस्तु नास्ति यद् अस्ति केवलं परमपुरुषः एव सत्यमस्ति इत्युक्ते तस्य परिवर्तनं कदापि न भवति त्रिषु कालेषु कदापि तस्य परिवर्तनं न भवति अद्य भवतु ह्यः भवतु परह्यः वा भवतु कदापि भूतकाले भविष्यत्काले वर्तमानकाले कदापि तस्य परिवर्तनं न भवति इति कृत्वा केवलं परमपुरुषः एव सत्यमस्ति अस्मिन् जगति यत्किमपि अस्ति तत् सत्यं नास्ति परन्तु वयं तद् नित्य इति न वदामः तस्य सापेक्षिकसत्यत्वं वर्तते यद्यपि लौकिकवस्तूनि क्षणिकानि परन्तु तेषां सापेक्षिकसत्यत्वं तु वर्तते खलु तर्हि अस्मिन् जगति यत्किमपि अस्ति भिन्नभिन्नरूपेण भिन्नभिन्नरूपेण वयं पश्यामः अस्मिन् जगति यद् यद् यद् वस्तु अस्ति तद् वर्णयुक्तम् अस्ति आल् दिङ्ग्स् इन् दिस् वर्ल्ड् आर् कलर्फुल् रैट् तत्र भिन्नभिन्नविधयः सन्ति सो मेनि वेरैटीस् मेनि कलर्स् uh, जगति तर्हि परन्तु वास्तविकसत्यं वास्तविकसत्यं तु एकमेव अस्ति तत्तु परमपुरुषः अस्ति परन्तु अस्मिन् जगति जगति परमपुरुषः परमपुरुषस्य आविर्भावः बा, अभूत् अत्र जगत् आविर्भावः अभूत् इति तत्र भिन्नभिन्न भिन्नभिन्नवस्तूनि सन्ति तेषां भिन्नभिन्नवर्णाः भिन्न, भिन्न, भिन्न, भिन्न, सन्ति ते एवं किमर्थम् अस्ति इति चेत् एतेषु वस्तुषु तन्मात्राणि सन्ति इति कृत्वा अस्माकम् आकर्षणं भवति आकर्षणं भवति तेषां तान् प्रति तानि प्रति तानि वस्तूनि प्रति अस्माकम् आकर्षणं भवति परन्तु तत्तु तत्तु अस्माकम् इन्द्रियाणां नियन्त्रणं नास्ति इति कृत्वा आकर्षणं भवति परन्तु यः यस्य चक्षुः अन्तश्चक्षुः उद्घाटितः भवति सः तु केवलं परमपुरुषमेव पश्यति सर्वत्र यत्किमपि वस्तु अस्ति तत् तत्तु परमपुरुषस्य रूपमेव इति सः पश्यति इति तत्र श्लोकस्य अर्थः अस्ति तर्हि परम इत्युक्ते आहत्य सारांशः कः इति चेत् तस्मात् श्लोकात् अस्माकं पुरतः जगत् वर्तते तत्र जगत् कलर्फुल् वर्ल्ड् वर्णयुक्त वर्णयुक्तं जगत् वर्तते अस्माकं पुरतः Uh, तत्र जगत् प्रति अस्माकम् आकर्षणं भवति यावत्पर्यन्तं वयं चिन्तयामः अहं भिन्नः अस्मि परमपुरुषात् अहं भिन्नः अस्मि इति यावत्पर्यन्तमहं चिन्तयामि तावत्पर्यन्तम् इदं जगत् वर्तते वर्णयुक्तं जगत् वर्तते यदा मम अवगमनं भवति मम अन्तश्चक्षुः उद्घाटितः भवति अहम् अवगच्छामि एतत् सर्वमपि ब्रह्मस्वरूपमेव अस्मिन् मम पुरतः यत् पुस्तकमस्ति तत्तु ब्रह्मस्वरूपम् एव अहं यत्किमपि कार्यं करोमि तत्तु ब्रह्म ब्रह्मणः कृते एवं करोमि इति रूपेण यस्मात् यदा अस्माकं ज्ञानं भवति यद् मम धर्मः मानवधर्मः मम अनन्तेषणा वर्तते इति एवं यदा अवगमनं भवति तदानीं तत्र जगतः वास्तविकरूपं वयम् अवगच्छामः परन्तु तदर्थं वयं न वदामः जगत् मिथ्या इति न वदामः जगति वयं व्यवहारं कुर्मः अन्येषां सेवां कुर्मः तदानीम् अस्माकम् अग्रगतिः अवश्यं भवति अग्रगतिः अवश्यं भवति तत्र संशयः नास्ति इति अत्र उक्त्वा अग्रे गच्छामः कोपि प्रश्नः अस्ति वा सरलाभगिनी इदानीं स्पष्टं भगिनी समीचीनम् अस्तु तर्हि इदानीं किञ्चित् अत्र करपत्रं प्रति गच्छामः भवती श्लोकद्वयं वाट्सप् मध्ये प्रेषया प्रेषयामि प्रेषयामि तर्हि हा समीचीनं तर्हि इदानीम् अस्माकं करपत्रे अयं संसारः कः इति विषयः अनुवर्तते तत्र अस्माभिः किं दृष्टम् इति चेत् गतवर्गे तत्र द्वादशवादने परमपुरुषः वर्तते पुरुषोत्तमः वर्तते तत्र सिष्टिचक्रं कथं भवति इति अस्माभिः दृष्टं तत्र द्वादशवादने परमपुरुषः अस्ति प्रकृतेः सत्त्वगुणस्य प्रभावेन महत्तत्त्वम् आयाति पुनः रजोगुणस्य प्रकृतेः रजोगुणस्य प्रभावेन महत्तत्वस्य उपरि अहं तत्त्वम् तदनन्तरं प्रकृतेः तमोगुणस्य प्रभावेन चित्तमायाति तर्हि त्रिवादनपर्यन्तं परमपुरुषस्य मनः निर्मितं भवति ततः त्रिवादनात् षड्वादनपर्यन्तं पञ्चभूतानि निर्मितानि भवन्ति आकाशात् वायुः अग्निः अग्निः अग्नेः जलं जलात् पृथ्वी इति एवं रूपेण पञ्चभूतानि निर्मितानि तदनन्तरं षड्वादने यदा तमोगुणस्य प्रभावः स्थितितत्वे अधिकं भवति अधिकम् अधिकम् अधिकं भवति तदानीं यदा पराकाष्ठा भवति तस्य प्रभावस्य प्र पराकाष्ठा भवति तदानीं यदा अनुकूलवातावरणमस्ति तदानीं तत्र जीवस्य आविर्भावः भवति क्षितितत्वात् तत्र पा क्षितितत्वात् जीवस्य आविर्भावः भवति यदा अनुकूलवातावरणं नास्ति तदानीं तत्र पाषाकरण आ... पाषाण करन... कर... तत्र क्षितितत्वस्य चूर्णी चूर्णीभवनं भवति तस्य पुनः मूलभूते तस्य योगः भवति इति अस्माभिः दृष्टं तत्तु प्रतिसञ्चर्धारा स्थूलपर्यन्तं गमनम् तदनन्तरं षड्वादनात् द्वादशवादनपर्यन्तं स्थूलात् सूक्ष्मपर्यन्तं गमनं तर्हि यदा प्रकृतेः प्रभावः अधिक अधिक अधिकः भवति तदानीं स्थूलभूतं वयं स्थूलभूतं भवामः क्षितितत्त्वरूपेण भवामः यदा यदा प्रकृतेः प्रभावः इतोपि तत्र किञ्चित् न्यूनं न्यूनं न्यूनं गच्छति तदानीम् अस्माकम् अग्रगतिः भवति षड्वादनात् जीवस्य आविर्भावः क्रमेण तत्र जीवानां वर्धनं एककोशः जीवः तदनन्तरं तत्र सस्यानि पुष्पा सस्यानि अनन्तरं पशवः तत्पश्चात् दशवादने मानवाः आविर्भूताः तर्हि दशवादनात् द्वादशवादनपर्यन्तं गमनं कदा भवति इति चेत् यदा अस्माकं ज्ञानं भवति यत् अस्माकं जीवनस्य लक्ष्यं परमपुरुषः अस्ति अस्माकं मानवधर्मः कः इति यदा ज्ञानं भवति तदानीं यः तस्य तस्य तन् त तत् ज्ञानं स्वीकृत्य यः चेष्टाम् करोति तदानीं परमपुरुषः स्वयं तस्य कृते मार्गदर्शनं करोति तदानीं सः साधकः भवति तस्य अग्रगतिः भवति इति एतत् सर्वम् अस्माभिः तर्हि इदानीं तत्र आ, तत्र षड्वादने तत्र स्थितितत्त्वस्य निर्माणं भवति इति वयम् यदा पञ्चभूतानां निर्माणं भवति तदानीम् आकाशः वायुरूपेण परिवर्तते चेत् तर्हि आकाशभूतः नास्ति वा इति चेत् आकाशभूतः तर्हि तत्र यदा कक्षायां नूतनछात्राः आगच्छन्ति यदा कक्षा वर्षस्य अन्ते कक्षायाः समाप्तिः भवति तदानीं तस् तस्यां तस्यां कक्षायां ये छात्राः सन्ति ते तस्मात् ते अग्रे गच्छन्ति खलु तर्हि अग्रिमवर्गं प्रति गच्छन्ति तदानीं नूतनछात्राः तस्यां कक्षायाम् आगच्छन्ति एवम् अत्र आकाशः आकाशभूतः वायुरूपेण यदा परिवर्तते तदानीं पुनः ब्रह्म आकाशरूपेण आगच्छति इति एवं रीत्या सर्वदा तत्र आकाशः वायुः अग्निः जलं पृथ्वी इति सर्वदा भवति इत्युक्ते एकस्य अन्यरूपेण परिवर्तनम् अस्ति चेत् तस्य अभावः भवति इति नास्ति सर्वदा सर्वदा भवति तर्हि अस् अस्यां तत्र धूलिकणः धूलिकणः यः यः अस्ति सः कणः अपि परमपुरुषः एव यतोहि परमपुरुषः एव सामग्री अस्ति जगतः निर्माणार्थम् इति एतत् सर्वम् अस्माभिः दृष्टं तर्हि इदानीं तर्हि इदानीम् अग्रे किञ्चित् गच्छामः ओके okay. uh. मम स्क्रीन् दृश्यते वा आं महोदय नमस्कारः दृश्यते एव अस्तु okay. सरलाभगिनी पठतु प्रतिसञ्चरे सृष्टि स्थूलात् सूक्ष्ममं प्रति गमने पुरुषक्रमेण प्रकृतिप्रभावस्य बन्धनात् मुक्त भवति परन्तु अन्यस्याम् अवस्थायाम् अर्थात् सञ्चरे सृष्टिः सूक्ष्मात् स्थूलपर्यन्तम् गमने तु अधिकादिकं अधिकाधिकम् प्रभावे पतति अन्तेः सह प्रकृतेः गुणानाम् अत्यन्तप्रभावेण स्थितितत्त्वरूपेण निर्जीव जड भवति धर्मः पुरुषस्य गुणीकरणम् सृष्ट सृष्टि अवस्थायाम् स्थूलरूपेण परिणमति तत्र वयं पश्यामः यत् प्रकृतिः क्रमेण पुरुषम् गुणान्वयम् करोति अस्य परिमाणरूपेण पुरुष स्वस्य भूमाचैतन्यस्य प्रतिबिम्बनस साम, सामर्थ्यात् वञ्चित् भवति अन्ततो गत्वा सः सर्वथा चैतन्यहीन प्रतियते अपि चन्द्र जीववस्तुरूपेण शित्तितत्त्वरूपेण तिष्ठति सूक्ष्मतः स्थूलपर्यन्तम् गमने प्रकृतिः स्वस्य गुणसम्पत्त्या पूर्णतया प्रयोगम् करोति परन्तु सृष्टेः अन्यस्याम् अवस्थायाम् यदा गति स्थूलात् सूक्ष्मपर्यन्तम् भवति तदा वयम् पश्यामः यत् क्रमेण चैतन्यस्य प्रतिबिम्बं स्पष्टम् भवति अर्थात् पुरुषः क्रमेण प्रभावात् मुक्तः भवति सृष्टेः अस्याम् अवस्थायां प्रकृतिः स्वस्य बन्धनगुणस्य सम्यक् प्रयोगं कर्तुं न शक्नोति यतः पुरुषः तस्याः प्र तस्याः प्रभावे अधिकम् आगमनात् तस्याः परिमाणेन मुक्तः भवति कथम पुर प्रकृति धर्म वा प्रभा विमोचय गुण गुणाव चोद अस्त व्याख्यान से आवश्यकता वर्त है तो इदानीं यथा भवति उक्तवती दत्तमस्ति सूक्ष्म परमपुरुष वयं जानीमः द्वादशवादन इति यदि वयम् इति घटित इति वयं कल्पना कुर्मः तद्वादशवादन तत्र परमपुरुष सूक्ष्मतमस्ति तत्र तदानीं प्रकृतेः कमपि किमपि अ प्रभावः नास्ति यदि प्रकृतिः प्रभावं करोति पुरुषं तत् सूक्ष्मपुरुषं तत्र निर्गुण अवस्थायां अस्ति तस्य प्रकृतेः Uh, सतोगुणेन तस्य परिमा परिमा परिमाणं महत्तत्वे इति परिवर्तते यदि परिमाणं महत्तत्त्वम् आगच्छति तत् अपि अस्ति किन्तु निर्गुण अवस्थायां तस्य अपेक्षया इति अ सूक्ष्म न्यूनमे सूक्ष्म यदि न्यूनतम तो इधान ये महत्व वह पूर्व दृष्टि ये भाव आगछति अहम अस्मी भाव आगे यदि अहम भाव आगछति तो ये वह वादा स्थूलवती निर्गुणवस्थाया अक्षा तदनन्तरं रजोगुणस्य प्रभावेन महत्तत्त्वम् अस्ति वयं पूर्वं दृष्टवन्तः तत् वदामि पुनः रज् रजोगुणस्य प्रभावेन इदानीम् अहं तत्त्व परिवर्तते यदि अहं तत्व, रज, इदानी तत्व परिवर्तते इदानीम् अपि सूक्ष्म अस्ति किन्तु अन्यभावः अपि आगच्छति अहं करोमि इति आगच्छति यदि अहं करोमि इति स्थूलतरं भवति इदानीं महत्तत्त्वस्य अपेक्षया तदनन्तरं तमोग्रस्य प्रभावेन अहं तत्त्व चित्ते परिवर्तते यदि चित्ते परिवर्तते तत्र यदि वयं दृष्टवन्तः आकार आकारः आगच्छति तन्मात्रा बहिः यत्र विषयाः सन्ति आगच्छति यदि कल्पना भवति तु मानसिक आका, आकार तत्र कल्पनायाः आकारः अपि आगच्छति तो इति चित्तं स्थूलतमं भवति निर्गुणावस्थायां महत्तत्त्व अहं तत्त्व अपि तेषाम् अपेक्षया एकनिमिषं वदति स्थूल स्थूलतमं भवति इदानीम् इदानीमपि प्रकृतेः प्रभावः भवति चित्ते उपरि चित्तौ उपरि यदि तस्य प्रभावः इदानीं भवति इदानीं तस्य प्रभावेन इदानीं यत् सृष्टिः अस्ति तस्य ये पञ्चभूतानि सन्ति तस्य निर्माणं भवति तस्य निर्माणम् अपि सूक्ष्मतत्त्वात् स्थूलतत्त्वं पर पर्यन्तम् आगच्छति प्र प्रथमं भूत भूतम् अस्ति व्योम व्योमतत्त्वम् अस्ति व्योम व्योमतत्त्वम् अस्ति तत्र केवलं वयं जानीमः शब्द इति शब्दगुण तस्य भवति लक्षणम् व्योमतत्त्व एक एव तन्मात्रा अस्ति तस्मिन् तदनन्तरं वायुः यति वायुतत्त्व वायुतत्त्वम् अस्ति तस्मिन् मात्राद्वयं तन्मात्राद्वयं भवति अ शब्द योगस्पर्शम् इदानीम् तदनन्तरं वयं जानीमः तेजस्तत्त्वम् अस्ति तेजस्तत्वे अन्य तन्मात्रा अपि भवति तत्र अस्ति रूपं तद् तदनन्तरं जलं जलमाजगच्छति तत्र भवति रसतन्मात्रा आगच्छति शितितत्व अस्ति तस्मिन् स्पर्श वायुतत्वे स्पर्शः स्पर्श रूप रस इध ग आगछति क्षेत्रतत्व जड़म स्थूलतमें सर्वे तंत्र सर्वा तगछति आकाशतत्त्वम् अस्ति सूक्ष्मम् अ सूक्ष्मतमम् इति पञ्चभूतं ये वयं जानीमः तेषु सूक्ष्मतमम् अस्ति आकाशतत्त्वम् अ स्थूलतमम् अस्ति क्षितितत्त्वम् इदानीं वयं दृष्टवन्तः द्वादन द्वादशवादनतः षड्वादनं पर्यन्तं सूक्ष्मतत्व कथं जरतत्वम् अभवत् क्षितितत्त्वम् इति जरतत्त्वम् अस्ति तस्य तत्र प्रकृतेः प्रभाव इति अधिकतमम् अस्ति पुरुष उपरि इदानीम् इति सञ्चर सञ्चरभाव इति वयं वदामः तदनन्तरं प्रकृतिः प्रभाव शनैः शनैः पुरुष उपरि अपग अपगच्छति तत् पुरुषः इति मुक्तः भवति शनैः शनैः तत्र शनैः शनैः यदि मुक्तः भवति तत्र तस्य पुनः षड्वादनतः द्वा द्वा द्वादशवादनपर्यन्तं यदि गच्छति तत्र द्वादशवादनतः पुनः सूक्ष्मं भवति किन्तु तत् प्रतिसञ्चर यदि प्रक्रिया अस्ति तस्मिन् वयं पश्यामः जरतत्वात् कथं चैतन्यतत्त्वम् आगच्छति इति वयं दृष्टब् इति अद्भुत सृष्टिः कथम् अभवत् इति वैचित्र्यम् अस्ति इति अस्माकं न भवति तस्य एक का दत्तमस्ति इदानीं यथा प्रकृतेः स्वभावः अपगच्छति तदानीं पुरुषः यत् अस्ति तस्य प्रतिबिम्ब आगच्छति यदि प्रतिबिम्ब इति भूतं ये भूतं प्रति आगच्छति तत्र चैतन्य चैतन्यस्य चैतन्यस्य प्रकटी भव चैतन्यप्रकटी भवति प्रथमं यत् अस्ति तत् कायी वयं दृष्टवन्तः पूर्वं परिचये तत्र कायी इति प्रथमम् अस्ति इति कायी इति लैक् अ मास् इट् इस् ओवर् द वाटर् अ स्टेण्डिङ्ग् रिवर् इस् नाट् रिवर् रिवर् हेज़् अ फ्लो वित् अ टेङ्क् वाटर् पौण्ड् वाटर् अस्ति कायि इति अस्ति तस्मिन् शितितत्त्व अपेक्षया इति सूक्ष्मम् अस्ति किञ्चित् सूक्ष्म अस्ति किञ्चित् इदानीमपि ज्वरः अस्ति तदनन्तरम् एककोश तदनन्तरं बहवः कोश जीवानि भवन्ति तदनन्तरं यथा वयं जानीमः डाविस् इवोल्युशन् अस्ति तस्य प्रोटोस्वा एम्फीबिया रेप्ठाल् स्पिसिस् आगच्छन्ति पक्षिणः अन्तिमं चरं चरं प्रभावेन यदि प्रकृति प्रभावः न्यूनं न्यूनं भवति तत् चरम् अवस्थाति मानवस्य निर्माणं मानवस्य यदि निर्माणं भवति तस्मिन् पुरुषस्य यत् प्रतिबिम्ब तत् अधिक तमम् अस्ति अपि स्पष्टमस्ति यदि मानवस्य प्रतिबिम्ब पुरुषस्य प्रतिबिम्ब इति अस्ति इति सूक्ष्मतमम् अत्र भवति यदि सूक्ष्मतमं प्रतिबिम्बम् अस्ति तत्र, थी। थी तत्र ए मानव एव पुरुषस्य अपि पशु पशूनाम् अपेक्षा इति दशवादनतः दशवादने मानवस्य निर्माणम् अस्ति दशवादन द्वादशवादनपर्यन्तं पुनः प्रकृतेः प्रभावः प्रभावात् कथं मुक्तं भवेत् इति मानव एव कर्तुं शक्नोति तस्य पूर्वं ये आ, प, पशु पशवः सन्ति तेषाम् एतत् शक्तिः नास्ति यत् तानि तां तां ता, ता, ता, मुक्तं कर्तुं शक्नोति तु इति केवलं मानव एव समर्थम् अस्ति इति मुक्तं भवा पक्तेः प्रभावेन इति अस्ति आहत्य इत, अस्ति अति सूक्ष्म सूक्ष्म निर्गुणोष्ठ सूक्ष्मतमं तस्मात् भवती स्थूलतमं त्व जल अस्ति तत् सञ्चर प्रक्रिया तदनन्तरं प्रतिसञ्चरप्रक्रिया कै इति प्रथमं चैतन्यजीव भवति तदनन्तरं मानव इति प्रतिबिम्बात् पुरुषस्य प्रतिबिम्ब यत् अस्ति तत् अस्ति अनेन स्पष्टं प्रतिबिम्ब अस्ति अधिकतमं प्रतिबिम्ब अस्ति मानवस्य निर्माणम् अस्ति मानव यत् चैतन्य मनुष्यः अस्ति तस्मिन् प्रकृतेः प्रभावात् मुक्त भवामि भा, भा, इति तस्य आकाङ्क्षा आगच्छति इति वयं पठितवन्तः अस्मिन् सा तु भगिनी हा भगिनि बहु समीचीनं भगिनी सर्वम् <laughs> अहम् अद्य पठितवती तर्हि मम मनसि न सम्यक् सम्यक् समीचीनं सर्वम् उक्तवती तर्हि तदेव अस्ति अत्र अधिकं किमपि वक्तुं नास्ति इत्युक्ते सम्यक्तया भगिनी उक्तवती प्रतिसञ्चरधारायां प्रकृतेः प्रभावः अधिकः अधिकः भवति सञ्चरधारायां प्रकृतेः प्रभावः अधिकः अधिकः भवति प्रतिसञ्चरधारायां प्रकृतेः प्रभावः न्यूनः भवति इत्युक्ते प्रकृतेः स्वभावः कः प्रकृतेः स्वभावः तु सर्वदा यत्किमपि अस्ति तस्य बन्धनं बन्धनं करोति तर्हि तदेव तस्य स्वभावः तर्हि प्रतिसञ्चर्धारायां कथं प्रकृतेः प्रभावः न्यूनः भवति कथं तत्र प्रकृतेहे प्रभावात् प्रकृतेः बन्धनात् मुक्तिः कथं भवति इति कथं कथं वा शक्यते यतोहि प्रकृतेः प्रकृतिः तु सर्वदा वर्तते प्रकृतिः कदा न कदापि नास्ति इति नास्ति सर्वदा प्रकृतिः वर्तते तर्हि कथं तस्य बन्धनात् मुक्तिः प्रकृतिः अस्ति चेत् तत्र बन्धनमेव अस्ति तर्हि कथं मुक्तिः भवितुमर्हति पुरुषः कथं प्रकृतेः प्रभावात् मुक्तः भवति इति इदानीं प्रश्नः अस्ति तस्य प्रश्नस्य उत्तरम् अग्रे पश्यामः तर्हि किं तत्र सरिताभगिनी पठति वा आं भगिनि पठामि प्रकृतेः गुणानां प्रभावेण सृष्टौ अनन्तसङ्ख्यकजीवात्मरूपेण केचन जीवात्मनः एव स्थितितत्त्वरूपम् अगृह्णत् अगृह्णन् एते जीवात्मनः चरे स्थूलात्गमने प्रकृतेः प्रभावात् क्रमेण मुक्ताः भवन्ति समग्रसृष्टेः उत्पत्तिः सगुणब्रह्मणः अस्ति तथा च परं सत्ता एव जीवात्मनः स्थूलसृष्टिरूपेण परिवर्तनस्य तथा च गुणा, गुणा अपि कारणम् अस्ति सगुणब्रह्म एव अस्य उत्तरदायी भवति यदि सगुणब्रह्म जीवात्मनां मुक्तेः उत्तरदायि तर्हि तत् स्वयं मुक्तः भवेत् अन्यथा सगुणब्रह्म जीवात्मनां मुक्तिहेतुः न भवितुम् अर्हन्ति अतः यदि सगुण् ब्रह्म जीवात्मनः भुक्तिहेतुर्भवेत् तर्हि तत् स्वयं न न अत्र यः स्वयं बन्धने अस्ति सः अन्यान् मम तन्त्राः ते परं मुक्तिसाधनं न न न तत्र नास्ति भगिनी अत्र पश्यतु यः स्वयं ह आम् आ यः स्वयं बन्धने अस्ति सः अन्यान् तस्मात् विमोचयितुं न शक्नोति यदि रामः श्यामः च द्वौ अपि निरुद्धौ तर्हि रामः श्यामस्य मुक्तिं कर्तुं कदापि न शक्नोति यावत् सः स्वयमेव कारागारे अस्ति रामः कियन्तमपि प्रयत्नं करोति परन्तु कारागारस्य अन्ते स्थित्वा एतत् साधयितुं न शक्नोति रामः कदापि श्यामस्य मुक्तिसाधनं न भवितुम् अर्हति किन्तु कारागारात् बहिः कोऽपि अल्पप्रयत्नेन अपि श्यामं विमोचयितुं शक्नोति स्म सः कश्चित् श्यामस्य मुक्तेः कारणं भवितुम् अर्हति स्म ये स्वयम् अस्वतन्त्राः ते परं ते परमुक्तिसाधनं न भवितुम् अर्हन्ति अतः यदि सगुणब्रह्मजीवात्मनः मुक्तिहेतुर्भवेत् तर्हि तत् मुक्तं भवेत् अत्र अत्र मुक्तिः कथं साधितुं शक्यते इति विचारः अस्ति तत्र यदि स्थूलतया सूक्ष्मरूपेण जातः तदा मुक्तिः भवति इत्युक्ते प्रकृति प्रकृतिप्रभावं यदा न्यूनं भवति तदा मुक्तिं प्रति वयं गच्छामः इदानीं सगुणब्रह्मणि एव सर्वं सृष्टिनिर्मिताः न्ति तदा यदा सूक्ष्मतया स्थूलतया स्थूलरूपेण परिवर्तनं भवति तदा सृष्टेः निर्माणं भवति किन्तु तत्र विपरीत क्रमे、यदा स्थूलतया पुनः सूक्ष्मरूपेण गच्छ प्रत्यागमनं भवति तदा मुक्ते मुक्तिः भवति परत तदा इत्युक्ते सगुणब्रह्मणि एव सृष्टेः कारणम् अपि भवति तदा सृष्ट सृष्टेः मुक्तिः अपि सगुणब्रह्मणि एव वर्तते किन्तु तत् अस्याम् अवस्थायां सगुणब्रह्मणः मुक्त एव भवेत् तर्हि अन्या अन्येषां कृते मुक्तिसाधनं अर्हति यः कोऽपि स्वयं बन्धने अस्ति सः अन्येषां कृते मुक्तिसाधनं भवितुं न अर्हति कोऽपि पुरुषः कारागारे स्वयम् एव स्थितः अस्ति तदा अन्येषां कृते सः मुक्तिहेतुः प्रयत्नं करो कर्तुं न शक्नोति यः स्वयं मुक्तः अस्ति सः एव अन्येषां कृते प्रयत्नं यदि करोति तदा तस्य मुक्तिकारणं भवितुम् अर्हति किन्तु यदि सगुणब्रह्मण स्वयं एव पराधीना अस्ति स्वतन्त्र न अस्ति तदा कथम् अन्येषां कृते मुक्तिसाधनं भवति इति अत्र प्रश्नः उदितम् अस्ति आमामां भगिनि समीक्षा सम्यक्तया उक्तवती इत्युक्ते अत्र षड्वादनात् द्वादशवादनपर्यन्तं यद् प्रतिसञ्चरः भवति तदानीं प्रकृतेः प्रभावः क्रमेण तस्य प्रभावः न्यूनं न्यूनं न्यूनं न्यूनं न्यूनं भवति तर्हि एतत् कथं भवति इति चेत् एतत् सर्वं पुरुषस्य पुरुषस्य इच्छा इच्छानुरोधेन यतोहि पुरुषः एव अनुमतिं ददाति खलु पुरुषः एव अनुमतिं ददाति यदा पुरुषस्य इच्छानुगुणं प्रकृतेः बबा प्रभावः न्यूनः न्यूनः भवति तर्हि अन्ततो गत्वा दशवाद दशवादनात् द्वादशवाद गत्वा अग्रे गत्वा मुक्तिः कथं भवति इति चेत् तर्हि प्रकृतेः स्वभावः तु तत्र बन्धनीकरणमेव तस्याः स्वभावः अस्ति तर्हि तस्मात् मुक्तः कथं भवितुम् अर्हति इति चेत् तत्र पुरुषः तु मुक्तः अस्ति ब्रह्म तु इति कृत्वा तत्र मुक्तिसाधनं भवितुमर्हति ब्रह्ममुक्तिसाधनं भवितुमर्हति यथा भगिनी उक्तवती बन्धने चेत् तर्हि कश्चन बन्धने चेत् तर्हि अन्यस्य बन्धनस्य मुक्तिकारणं न भवितुमर्हति परन्तु भ्रमणः विषये तथा नास्ति ब्रह्म तु सर्वदा मुक्तः अस्ति इति कृत्वा तत्र अस्माकं मुक्तेः अपि ब्रह्मसाधनं भवितुम् अर्हति इत्यत्र उक्तमस्ति अस्तु तर्हि एकं गच्छामः विजयाभगिनी पठितुमिच्छति वा निर्गुणब्रह्मणि प्रकृतिपुरुषौ उभा उभावपि स्वतन्त्रौ स्तः तत्र पुरुषः स्वस्य स्वातन्त्र्यकारणात् प्रकृतेः गुणसिद्धान्तेन गुणान्वितः न भवति सः च पुरुषः निर्गुणब्रह्म अस्ति सृष्टेः क्रमे तु वयं पश्यामः यत् यदा प्रत्येकं जीवात्मा प्रकृते प्रभावे आगतः तदा स्वगुणब्रह्मणः इच्छानुसारम् एतत् विशालम् जगत् आविर्भूतम् स्वगुणब्रह्म च मुक्तपुरुषः अर्थात् सः स्वयम् मुक्तः किन्तु तस्य सर्वे घटकाः व्यक्तिगतरूपेण स्वतन्त्राः न सन्ति सगुणब्रह्मण सगुणब्रह्मणः आग। सगुणब्रह्मणः आग्रहेण एते एते घटकाः प्रकृति प्रकृतिवशं प्राप्ताह एवं सगुणब्रह्मा जीवात्मनः बन्धनहेतुः भवति स्वात्मानः च भागाः बद्धाः भवन्ति so, um, uh, निर्गुणब्रह्मणि uh, निर्गुण ब्रह्मणि प्रकृति अपि च पुरुषः द्वयम् अपि स्वतन्त्रः स्तः अत्र uh, तत्र, uh, तत्र पुरुषः तस्य स्वस्य स्वस्य स्वातन्त्रेण स्वातन्त्रकारणेन स्वातन्त्रकारणात् सः प्रकृतिं न गुणान्वितं प्रकृ गुण प्रकृति प्रकृतेः गुण गुणान्वितः च न भवति किम् उक्ते सः पुरुषः अपि निर्गुण निर्गुणब्रह्मः सो तत्र वयं दृष्टवन्तः तत्र सृष्टेः यत्र प्रत्येकं जीवात्मा प्रकृतिप्रभावेन एव आगच्छति तत्र सगुणब्रह्मस्य तत्र सगुणब्रह्मणः इच्छानुसारम् एतत् सर्वा सर्वं विशालं जगत् आविर्भूतं आवरणं भवति तत्र सगुणब्रह्म मुक्तपुरुषः अस्ति अर्थात् सः स्वयं मुक्तः किन्तु किन्तु तस्य पूर्णतया स्वतन्त्रः न सन्ति का सर्वे घटकाः घटकाः इत्युक्ते तस्य अंशा तस्य अंशाः सर्वाणि अंशा अंशाः स्वतन्त्रः न भवति सगुणभ्रमः सो प्रकृ प्रकृतेः प्रभावः सगुणब्रह्मणाः उपरि भवति एव अतः सगुणब्रह्म सगुणब्रह्म जीवात्मनः बन्धनहेतुः भवति स्वात्मनः च भागाः बद्धाः भवति सो सो अतः सगुणब्रह्म एव न सगुणब्रह्म अपि मरोविक्षे अपि एव न जाने न जाने किन्तु सगुणब्रह्म अपि बन्ध बंद, बन्धत्वस्य बान्ध बन्धनस्य कारणं भवति सो so, um, तस्य स्वस्य बहवः भागाः अपि बद्धाः भवन्ति पूर्वं वयं दृष्टवन्तः यः स्वतन्त्रः अस्ति सः एव मुक्तम् अपि मुक्तिकारणम् अपि भवितुम् अर्हति किन्तु सगुणः भ्रमः साक्षात् अपि किञ्चित् बद्धः एव अस्ति बन्धः एव अस्ति अतः सः सः कारणं भवति जीवात्मस्य जीवात्मनः बन्धनकारणम् अपि सः एव भवति इति समीचीनभी सम्यक् सम्यक् इत्युक्ते अत्र किम् अवगन्तव्यम् इति चेत् स सगुणब्रह्म न केवलं सर्वेषां जीवात्मनां टोटल् इति नास्ति सं टोटल् आफ् आल् इट्स् पार्ट्स् इति नास्ति सगुणब्रह्म ब्रह्म तु तस्मात् अपि अधिकमस्ति सगुणब्रह्म न केवलं सर्वेषां जीवात्मनां संहत्यरूपम् इति नास्ति सगुणब्रह्म तस्मात् अपि अधिकम् अस्ति तत्र जीवात्मनः जीवात्म जीवात्मनः सर्वे बद्धाः सन्ति तेषां बन्धने भिन्नभिन्नस्तराः सन्ति सर्वे बद्धाः सन्ति सगुणब्रह्म सगुणब्रह्म तु तस्मात् अपि अधिकम् अस्ति इत्युक्ते तस्य केषाञ्चन केषाञ्चन अंशानां बन्धनम् अस्ति परन्तु सगुणब्रह्म सगुणब्रह्मणि यद् मनः अस्ति भूमामनः भूमामनः एव सृष्टेः कारणमस्ति सृष्टेः पृष्ठतः अस्ति सगुणब्रह्म स्वयं स्वस्य इच्छानुगुणं प्रकृतेः बन्धने आयाति एतद् लीलां कर्तुं सृष्टिलीलां कर्तुं सगुणब्रह्म बन्धने आयाति परन्तु तस्य मनः सगुणब्रह्मणः मनः भूमामनः बन्धने नास्ति सगुणब्रह्मणः मनः सर्वदा मुक्तमेव अस्ति तर्हि इति अयं भेदः जीवात्मा सर्वदा बद्धः अस्ति जीवात्मा बद्धः अस्ति परन्तु परमात्मा तत्र सगुणब्रह्म तस्य भूमामनः भूमामनः तु बन्धने नास्ति तर्हि सगुणब्रह्म ब्रह्म स्वयं बन्धने आयाति तत्र बन्धने बन्धनं स्वीकरोति इत्युक्ते प्रकृतेः प्रभावं स्वीकरोति परन्तु मनः तु बन्धने नास्ति प्रकृतेः प्रभावं स्वीकरोति यदा प्रकृतेः प्रभावं स्वीकरोति तदानीं किं भवति इति चेत् जीवात्मनः सर्वे जीवात्मनः बन्धने आगच्छन्ति इति सृष्टेः लीला वर्तते एतद् सर्वं कार्यकारणभावात् परम् अस्ति कार्यकारणभावनेन भावेन एतत् सर्वम् अवगन्तुं न शक्नुमः एतत् सर्वं तु कार्यकारणभावात् अपि परम् तर्हि सगुणब्रह्म एव स्वामी अस्ति अतः अत्र सृष्टिलीलायाः स्वामी अस्ति स्वयं बन्धने नास्ति परन्तु तस्य अंशाः सर्वे अंशाः बन्धने सन्ति इति अयं भेदः अस्ति सगुणब्रह्म स्वयं वन्धने नास्ति परन्तु लीलायां वन्धने अस्ति इति भाति येन किं भवति इति चेत् जीवात्मनः सर्वे अपि बन्धने आगच्छन्ति जीवात्मनः बन्धने आगच्छन्ति परन्तु तेन अवगच्छन्ति अहं बन्धने अस्मि इति न अवगच्छन्ति परन्तु सगुणब्रह्म सर्वेषां जीवात्मनां नियन्त्रणं करोति सगुणब्रह्म सर्वानपि बन्धने अस्ति इति अनुभवं ददाति तर्हि परन्तु सगुणब्रह्म स्वयं तु मुक्तः अस्ति सगुणब्रह्म सर्वज्ञः अस्ति सः सगुणब्रह्म सर्वज्ञ सर्वज्ञः सर्व तत्सगुणब्रह्म तु सर्वं जानाति सर्वं जानाति परन्तु जीवात्मा तु सर्वं न जानाति जीवात्मा बद्धः अस्ति तर्हि इति कृत्वा सगुणब्रह्म अस्माकम् कारणं भवितुम् अर्हति सगुणब्रह्म एव अस्माकं बन्धनस्यापि कारणं सगुणब्रह्म एव अस्माकम् कारणं यदा वयं पृथक् इति चिन्तयामः अहं ब्रह्मणः पृथक् अस्मि इति चिन्तयामः तर्हि सर्वदा ब्र बद्ध बद्ध बद्धाः भवामः परन्तु यदा अस्माकम् अन्तश्चक्षुः उद्घाटितः भवति अहं बन्ध बंद, अस्मि इतः अग्रे बन्धने न भवितुम् इच्छामि इति यदा अस्माकं ज्ञानं अस्मा भवति तदानीं सगुणब्रह्म अस्माकं मुक्तेः कारणं भवति सः हेतुः भवति सः एव स्वयं गुरुरूपेण आगत्य अस्माकं मार्गदर्शनं करोति इति अत्र दत्तमस्ति यदावयं वयं बन् यदा, बन, यदा, यदा भवति तदानीं तत्र पूर्व पूर्वं कृत पुण्यपापानां पूर्वं कृतं यद् कार्यं तस्य कर्मफलं यदस्ति तस्य अनुभवः अस्माकं भवति अस्मिन् जन्मनि तर्हि यदा वयं यदा जीवात्मा जीवात्मबन्धने अस्ति तत्तु वास्तविकरूपेण अस्ति किम् भगिनि म्यूट् करोतु भगिनि तदानीं वन्दने वयं भवामः इति अत्र उक्तमस्ति इति कृत्वा तत्र इत्युक्ते अस्माकम् अस्माकं दृष्टिः कथम् अस्ति यदा अस्माकं दृष्टिः अस्माकं वासनालोके अस्ति तदानीं वयं बद्धाः भवामः यदा यदा अस्माकं अस्माकं दृष्टिः दृष्टिभेदः भवति यदा अस्माकम् अन्तश्चक्षुः उद्घाटितः भवति तदानीं स तदेव ब्रह्म अस्माकं मुक्तिकारणं भवति अस्तु तर्हि कोपि प्रश्नः अस्ति वा तर्हि अत्रैव स्थगनं कुर्मः धन्यवादः धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः धन्यवादः नमस्कारः नास्ति चिन्ता भगिनी